अथ पञ्चाशीतम् दशकम् ततो मगध भूभृता चिरनिरोध सङ्क्लेशितम् शताष्टकयुतायुत द्वितयमीश भूमीभृताम् प्राहिणो दयाचतसमागध भूयसा ययासुरभिमागधम् तदनु नारदोदीरिताद्युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः विरुद्धजैनोऽध्वरादुभयसिद्धिरित्युद्धवे शशंसुषि निजैः समम् पुरमियेऽ यौधिष्ठिरीम् अशेषदयितायुते त्वयि समागते धर्मजो विजित्य सह भवदपाङ्गसंवर्धितैः श्रियम् निरुपमाम् वहन्नहः भक्तदासायितम् भवन्तमयिमागधे प्रहितवान् स भीमार्जुनम् गिरिव्रजपुरम् गतास्तदनुदेव यूयम् त्रयो यया च द्विजमिषेण तम् मागधम् अपूर्णसुकृतम् त्वमुम् पवनजेन सङ्ग्रामयन् निरीक्ष्य सह त्वमपि राजयुद्ध्वा स्थितः अशान्तसमरोद्धतम् विटपपाटना सञ्ज्ञया निपात्यजरसः सुतम् पवनजेन निष्पाटितम् विमुच्य नृपतीन्मुदा पराम् दिदेशिथगतः स्पृहानपि च धर्मगुप्त्यैभुवः प्रचकृषि तदनु राजसूयाध्वरम् प्रसन्नभृतकीभवत्सकलराजकव्याकुलम् त्वमप्ययिजगत्पते द्विजपदावनेजादिकम् चकर्थ किमुकथ्यते नृपवरस्य भाग्योन्नतिः ततः सवनकर्मणि प्रवरमग्रपूजा विधिम् विचार्य सह देववागनुगतः स धर्मात्मजः यधत्त भवते मुदा सदसि विश्वभूतात्मने तदा ससुरमानुषम् भुवनमेव तृप्तिम् दधौ ततः सपदि चेदिपो मुनिनृपेषु तिष्ठत् स्वः सभाजयति को जडः पशुपदुर्दुरूटम् वटुम् इति त्वयि सुदुर्वचो वितति मुद्वमन्नासनादुदापतदुदायुधः समपतन्नमुम् पाण्डवाः निवार्य दनुज दारिणा स्वारिणा जनुस्त्रितय लब्धया सतत शुद्धधीस्त्वया स परमेकतामधृत योगिनाम् दुर्लभाम् ततः सुमहिते त्वया क्रतुवरे निरूढे जनो ययौ धर्मजो जयति कृष्ण इत्यालपन् खलः स तु मयार्पितसभामुखे खल भ्रमाद भ्रमीत् तदा हसितमुत्थितम् द्रुपदनन्दना भीमयोरपाङ्गकलया विभो किमपि तावदुज्रम्भयन् धराभर निराकृतौ सपदि वपन् जनार्दन निलय पाहि इति पञ्चाशीतम् दशकम्